मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं सिक्स्टीन् ज्येष्ठशुक्लचतुर्थीमाहात्म्यवर्णनं श्रीगणेशाय नमः दशरथ उवाच श्रुतं वैशाखमासे वै शुक्लाया फलमुत्तमम् चतुर्थ्या अधुना योगिन् ज्येष्ठशुक्लां वद प्रभो वसिष्ठ उवाच आन्ध्रे शेषपुरे राजन् राजाभूत् कर्दमाभिदः शस्त्रास्त्रनिपुणोत्यन्तं नानाधर्मपरायणः वशम्भूमण्डलं यस्य समुद्रान्तं बभूवः तेजसा धर्मनीत्या वै ह्यतुलो यशसा भवद दैवयोगेन शशाकशः रुरोदकर्दमो भूत्वा सदा दाहयुतो भृशम् नानोपाह्याकृतास्तेन शान्दो रोगो बभूवन तदो राज्यं परित्यज्य शस्त्रीकर्स ययौवनम् वनाद्वनान्तरम् गत्वा महोग्रं महोग्रम्भयवर्धनम् सिंहव्याघ्रादियुक्तं च मरणाय रुरोदः तत्रा जगामविप्रेन्द्रो भरद्वाजो महायशाः तम् दृष्ट्वा सहसोद्धाय सस्त्रीकः प्रणनामसः स हि बद्ध्वा करपुडं तत्पुरः संस्थितोऽभवद ततोदि दाहसंयुक्तः पपात च रुरोदसः तादृशं नृपनाथं स दृष्ट्वा योगेन्द्रसप्तमः ध्यानेनालोक्य राजानमुवाच दययायुतं भरद्वाज उवाच शृणु कर्दमराजेन्द्रवचनं मे हि दावखं येन दुःखविहीनस्त्वं भविष्यसि महामदे चतुर्थीव्रतमत्यन्तं नष्टं राज्ये त्वदीयके तेन पापसमायुक्तस्त्वं जातोऽसि नृपाधमः अधस्त्वं जनसंयुक्तो व्रतं कुरु महामते पुण्येन तेन राजेन्द्र दुःखहीनो भविष्यसि भरद्वाजव च श्रुत्वा तं पप्रच्छ प्रणम्य सः कर्दमो हर्षसंयुक्तो व्रतस्याचरणाय च कर्दम उवाच भगवन् सर्वतत्त्वज्ञत्वयाहमनुकम् पितः व्रतस्य वदमाहात्म्यमधुना तत्करोम्यहम् भरद्वाज उवाच सङ्कष्टं वरदं कृष्णे चतुर्धीजं च शुक्लगे व्रतं सर्वार्थकं पूर्णं चतुर्नां साधकं मदम् सर्वादौ तन्नरकुर्यात्तदा सर्वं नराधिप चतुर्नां पुरुषार्थानां दादृकर्मफलं लभेद अदो हीनश्चतुर्भिस्त्वं स जनो नरके नृप पदिष्यसि न सन्देहस्तदर्थं यत्नमाचर ेवमुक्त्वा समाहात्म्यं चतुर्धीसम्भवं नृप श्रुत्वा राजा ननन्तः पुनः पप्रच्छतं विप्रं भरद्वाजं स कर्दमः गणेशस्य स्वरूपं मे वद सर्वज्ञते नमः भरद्वाज उवाच गणेशस्य स्वरूपम् तु वक्तुं वेदाधिका नृप न समर्थास्तथापि त्वम् सुखप्रदम् पुराहं तपसायुक्तो च तप उत्तमम् सर्वं च राचरम् राजन्मदधीनम् बभूवः तथापि तपःसोऽग्रेणासाधयं तु तपःपुनः तदोन्तर्ज्ञानभावे मे मदिर्जादा सुपुण्यतः तपस्त्यक्त्वा तदोऽहं तु शमीदमपरो भवन् जडोन्मत्तादिजेमार्गे संस्थितो योगकारणाद तदक्रमेण भो राजन्न सत्स्वानन्दगो भवं तत्र योगेन शान्तिं प्राप्तो विशेषतः तस्माद्भेदादिकं सर्वमुत्पन्नं तु विशेषतः तद्दृष्ट्वा क्षुपितोऽत्यन्तं शान्तिहीनो यथाभवम् तदोकस्माद्रैवतो यो महायोगी समागतः आश्रमे मे च तं दृष्ट्वा प्रणदोकं सुपूजयन् स्वासने सुखमासीनमब्रवं तं महामुनिम् अद्याकं कृतकृत्यश्च जातस्ते दर्शनेन वै वदमे मे योगशान्तिं त्वं योगीन्द्राणां गुरुर्भवान् तिष्ठामि शान्तिगो भूत्वा ययासं योगधारकः रैवत उवाच स्वानन्दः पञ्चधा प्रोक्तः सदसत्समनेदितः चतुर्नां चैव संयोगे स्वस्वरूपः प्रकीर्तितः अयोगस्वस्वरूपेण हीनः सर्वत्र सम्मतः तयोर्योगो भरद्वाजयोगशान्तिप्रदायकः का। स्वसंवेद्योगकारश्च नकारो योग उच्यते तयोस्वामी गणेशोऽयं ब्रह्मणस्परिवाचकः तम्भजस्व महाभाग तदशन्तिमवाप्स्यसि नान्यथा शतवर्षैस्त्वं भ्रमयुक्तो भविष्यसि यदद्विष्णुमुखाद्भ्रह्मन् श्रुत्वा ज्ञानं महत्पुरा तेनाहं शान्तिमापन्नो गाणपत्यश्चरामि एवमुक्त्वा ददौ तस्मै स्वमन्त्रं सिद्धिदायकम् एकाक्षरं गणेशस्य सविधिं न्याससंयुदम् पूजितो रैवतस्तेन जगामस्वेच्छयाचरन् भरद्वाजो गणेशानमभजन्नन्यचेतसा तदशन्तिम् समापन्नो तथापि भजने रथः कदेशु दशवर्षेषु विघ्नेशस्तं समाययौ तं दृष्ट्वा पूजयामास भरद्वाजः प्रतापवान् ससाम्नामष्टनामार्थस्तोत्रेण प्रणनामः तदो मां गणपत्यं स कृत्वा स्वानन्दगो भवत विशेषेणाहं भजामि सुभकृदः यवमुक्त्वा ददौ तस्मै कर्दमाय महामनुम् अष्टाक्षरं गणेशस्य विधियुक्तं विधानविद ततश्चान्तर्हितो राजन् भरद्वाजो महामुनिः पर्धमस्वगृहे हत्वा हर्षयुक्तः पुपूजतं तत्रा दौज्येष्ठमासेया नृप समागताः चतुर्थी सा कृता तेन नागरायिर्हर्षसंयुधः वरदं सङ्गडं शुक्ले चतुर्थी च कृष्णके नकरो दिनरो यस्य सन्दाड्यो नगरात् बहिः प्रकाशितं ततस्तेन सर्वत्र व्रतमुत्तमं कृतं भूमितले राजन् चकृ सर्वे जनाव्रतं प्रमेहदुःखनिर्मुक्तो बभूवे राजसत्तमः कर्दमः स वै राज्यं पुत्राय सन्तदौ वाडिकायां स्थितो राजा सस्त्रीकोह्यभजत् सदा गणेशं सर्वभावेन सोन्दे तन्मयदामयाद तस्य राज्ये जनाः सर्वे ते क्रमेण महामदे अभवन् ब्रह्मभूतश्च व्रतपुण्यप्रभावतः कथां रम्यां दशरथ अन्यां शृणु सुसिद्धिदां गौडदेश्यन्त्यज कश्चेद्बूवे पापकारकः वनेगत्वा गत्वा जखानास्सौ द्रव्यलोभी जनान् सदा यो निलम्पडभावेन दूषितामकरोत् स्त्रियं वन एकाकिनीं दृष्ट्वा ब्राह्मणीं क्षत्रियां तथा धृत्वा यभत्स वेगेन शूद्रीं वैश्यस्त्रियं कलः एवं पापं चक्रे एकदा ब्राह्मणं कञ्चिद् दृष्ट्वा हन्तुं तमाययौ पलायद भयोद्विघ्नो हाहाकारपरायणः हा। तस्य नादं समाकर्ण्य पुरुषाः पञ्च आययुः पपाद पपादधरणीतले तस्मिन् दिने समायादाज्येष्टि शुक्ला चतुर्थिका स उपोषणयुक्तश्च बभूवे दैवयो गतः ममारपीडया युक्तपञ्चम्यां पापरूपकम् अज्ञानव्रतपुण्येन ब्रह्मभूतो बभूवः चाण्डालकिं पुनर्भूपज्ञानिनां एवं नानाविधाव्रतपुण्यप्रभावदः इह भुक्त्वा किलान् भोगानन्दे स्वानन्दकाबभुः तत्रैवं करि भूपालभ्रूयां वक्तुं न शक्यते अपारमहिमा तस्मादानन्द्यं कथिदं द्विजैः इदं ज्येष्ठचतुर्थ्यायन्माहात्म्यं संशृणो दिशः पठेद्वायो लभे सर्वं शुक्लाय मनसीप्सितम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते ज्येष्ठ शुक्लचतुर्थीमाहात्म्यवर्णनं नाम षोडशोऽध्यायः ॐ